मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं 41 फोर्टि वन् युधिष्ठिरकृष्णसमागमं श्रीगणेशाय नमः मुद्गल उवाच धृतराष्ट्रं च जन्मान्धं त्यक्त्वा पाण्डुं प्रचक्रिरे राजानं ब्राह्मणाः सर्वे सविजिग्ये विजिज्ञे वसुन्धरा चत्रादिराजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः धृतराष्ट्रं चकारसौ पाण्डु परपुरञ्जयः धृतराष्ट्रस्य भार्या भूगान्धारी च पदिव्रता। पाण्डो कुन्दी तथा माद्री भार्ये द्वे प्रबभूवधुः भार्याभ्यां संयुतो राजा वनं पाण्डुर्जगामः क्रीडार्थं तत्र नित्यं सरेमे हर्षेण संयुधः मृगरूपधरं राजा मुनिम् जघ्ने शरेण सह मृग्यासक्तं शशापार्श्व मरणोन्मुखः भार्याः संसक्तरूपं माम् हतवांश्च नृपाधम अतस्त्वं भार्यया सकृतो मैथुनाय भविष्यसि तदादे ते मरणं सद्यो मम वाक्याद्भविष्यति इत्युक्त्वा देहसन्त्यागं चकार द्विजसत्तमः श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने भार्याभ्यां सहितपाण्डुकन्दमूलादिभक्षयन् ततः कुन्द्यां समुद्भूतो धर्माद्धर्मभृदाम्बरः युधिष्ठिरो महाभागो मन्त्रसामर्थ्यकारणाद् वायोश्च भीमसेनो वै बभूव बलसंयुगः इन्द्रात् कुन्द्यामर्जुनः धनुर्विद्यापरायणः अश्विभ्यां नकुलस्तद्वत्सहदेवश्च वीर्यवान् माद्र्यां धर्मरथौ दक्षरूपलावण्यसंयुतौ गान्धार्यां च शतम् पूर्णं पुत्राणाममितौ जसां बभूवपुत्रिका दक्षरूपलावण्यसंयुता पाण्डुशापविमोहेन माद्र्यां सक्रो ममा रभा सा वै सह गदा जादा कुन्दीपुत्रा न पालयद ब्राह्मणैः स महाभागैरानिदा हस्तिना पुरे पुत्रैः कुन्दी ततो बहौ गते काले नुजैर्दुर्योधनः सः पाण्डवान् द्वेषसंयुक्तो पीडयत्स विषादिना दग्धुं तेनैकदा लाक्षागृहे संस्थापिता किल मात्रादे रक्षिता कर्मणा तदा इत्यादिविधैर्भावै द्वेषयुक्तः स दुर्मदिः पीडयामास तांशूरांस्ततो भीक्ष्म उवाचः अर्थम् राज्यं च सङ्गृह्य पुराद्गच्छन्तु पाण्डवाः इन्द्रप्रस्थं ततो जग्मुर्धृतराष्ट्रप्रचोदिताः तत्र दिग्विजयम् कृत्वा श्रिया युक्ताश्च ते कृष्णस्तेषां महाभागः पक्षग्राही बभूवः राजसूयमकं कृत्वा शुशुभुः पाण्डवास्तदः यत्र दुर्योधनो राजा भवन्मनसि दुःखितः धृतराष्ट्रेण दुर्बुद्धिरनायामा स पाण्डवान् महाभागान् जित्वा सङ्घर्षितोऽभवद वनेषु स्थापयामास पाण्डवान् साहसप्रियः सा वर्षाणि द्वादशाधैकं वर्षं गुप्ततया तथा त्यक्त्वा राज्यादिकं सर्वं पाण्डवा वनमाययुः तत्रा जगाम कृष्णो बलभद्रेण संयुतः पाण्डवान् सान्द्वयामसक्रोधयुक्तो बभूवसः दुर्योधनं कनिष्यामि महादुष्टं युधिष्ठिर कुरुराज्यं मया दत्तं शत्रुहीनं विशेषदः भ्रुवन्तं तं तद कृष्णं जगादश युधिष्ठिरः धर्मयुक्ततया राज्यं करिष्यामि जनार्दन अहं न धर्मसंयुक्तं राज्यमिच्छामि वा पदम् अधः कोपमहाबाहो नियच्छ मम वाक्यधः वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् तथ कृष्णस्वयं तत्र कोपहीन उवाचः युधिष्ठिरं सद्रौपद्य भ्रातृभिस्तं समन्वितम् ओं तत्सदिदिश्रीमदांदे पुराणोपनिषदी श्रीमंगले महापुराणे तृदए खंडे महोदरचरिदे युधिष्ठिकृष्णसमगमो नामक चरशोध्याय